जरितारौ कुलं येतज्ज्येष्ठत्वेन प्रतिष्ठितं सारिसृक्तः प्रजायेत पितॄणां कुलवर्धनः स्तम्भमित्रस्तपः कुर्याद् द्रोणो ब्रह्मविदम्बरः इत्येवमुक्त्वा प्रययौ पितावो निर्घृणः कमुपादाय शक्येयं गन्तुं कष्टापदुत्तमा किं नु कृतं कार्यं भवेदिति च विह्वला नापश्यत् स्वधिया मोक्षम् स्वसुतानां तदानलात् वैशम्पायनुवाच एवं ब्रुवाणां शार्ङ्गास्ते प्रत्योचुरथ मातरम् स्नेहमुत्सृज्य मातस्त्वं पतयत्र न हव्यवाच अस्मास्वि त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः अन्ववेक्षैतरुभयम् तद्वै कर्तुम् परःकाव मा त्वम् सर्वविनाशाय स्नेहम् काशीस्सु तेषु नः न हीदम् कर्म मोघम् स्याल्लोककामस्य इदमाखोर्बिलम् भूमौ वृक्षस्यास्य समीपतः तदा विशध्वम् त्वरिता वह्नेरत्र नवो भयम् ततोऽहम् पांसु छिद्रमपि धास्यामि पुत्रताः एवम् प्रतिकृतम् मन्ये ज्वलतः कृष्णवर्त्मनः तत एष्याम्यतीतेऽग्नौ विहन्तुम् पांसु सञ्चयम् रोचता मेशवो वादो मोक्षार्थम् च हुताशनात् अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् पश्यमानाभयमिदम् प्रवेष्टुम् अत्र शक्नुमः कथमग्निर्ननो धक्ष्येत् कथमाखुर्न नाशयेत् कथम् न स्यात् पिता मोघः कथम् माता ध्रियेतनः बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् गर्हितं मरणं न स्यादाखुना भक्षिते बिले शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि दरिताविलापे एकोनत्रिंशदधिकद्विशततमोऽध्यायः